त्रिषष्टितमोऽध्यायः विदुर उवाच द्यूतं मूलं कलहस्याभ्युपैति मिथो भेदं महते दारुणाय यदा स्थितोऽयं धृतराष्ट्रस्य पुत्रो दुर्योधनसृजते वैरमुग्रं प्रातीपेया शान्तनमा भैमसेनाः सभाषिकाः दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः दुर्योधनो मदेनैष राष्ट्रादपोहति विषाणं गौरिवमदा स्वयमारुजते त्मनः यश्चित्तमं वेति परस्य राजन्वीरः कविस्वामववन्यदृष्टिं नावं समुद्रैव बालनेत्रामारुह्य घोरे व्यसने निमज्जेत दुर्योधनो गृहते पाण्डवेन प्रियायसे त्वञ्जयतीति तच्च पतिनं राजायते सम्प्रहारो यतो विनाशः समुपैति पुंसाम् आकर्षस्ते वाक्फलस्सुप्रणीतो हृदि प्रौढो मन्त्रपदस्समाधिः युधिष्ठिरेण कलहस्तवायमचिन्तितोऽनभिमतः प्रातीपे या शान्तनमाशृणुध्वं काव्यं वाचं संसदि कौरवाणां वैश्वानरं प्रज्वलितं सुघोर्मा यास्यध्वं मन्दमनुप्रपन्नाः यदा मन्युं पाण्डवो जातशत्रुर्नसंयच्छेदक्षमदाभिभूतः ऋगोधरसव्यसाचे यमोचकोत्रद्वीपस्या तुमुले वस्तदानीं महाराजप्रभवस्तं धनानां पुरा द्युतन्मनसा यावच्छेः बहुवित्तान् पाण्डवांश्चेज्जयस्थं किन्ते तत्स्याद्वसुविन्देहपार्थाम् जानी महे देवीत सौ बल्स वेद्यूते निकतीतीतीतीतीतीतीतीतीतीय यतः प्राप्त शकुनीयू भारत विदुरवाके श्रीमहाभारभापर्ूतपर्वण विदुरवाक्ये त्रिष्टितमोध्याय